अथ चतुर्थकाण्डे षष्ठप्रश्नः प्रारम्भः अश्विन्वाजम् पर्वदेशश्रियाणाम् आते पत्यन्ने वरुणस्य सुष्मे अभ्योषयेभ्यो वनस्पतिभ्योऽधिसम्हृतान्तान्न इषमोऽत्यन्धत्तमरुदस्वगोरणा अस्मग्स्के क्षुदमम् देशगृच्छदयन् विष्मः समुद्रस्य त्वावाकयाग्ने परिव्ययामसि आवक अस्मभ्यगो शिवो बल हिमस्य त्वा जरायुणाग्नेपरिव्ययामसि आवक अस्मभ्यगो शिवो बल उभज्मन्नुपवेदसेवत्तरन्नदीष्व अग्ने वित्तमपामसि मण्डोगिताधिरागहिसेवन्नो यज्ञम् पावकवर्णगो शिवम् कृधि पावक आचितयम् जाकृ क्षामण्डुरच उषसानुभानु चोर्वया मन्ये तस्य नोरण आयोघृणे नदृशाणा अजरः पावकरोदिषा मन्द्रया देवजिह्वया आदेवानुवक्ष्यक्षिजा स न पावगदि दिवाग्ने देवागो यः उपयज्ञगो हविश्च नः अपामिदन्येन गो समुद्रस्य निवेशनम् अन्यन्ते अस्मत्तवन्धु हेतयः पावगो अस्मभ्यगो शिवो भव नमस्ते हरसे शोचिषे नमस्ते अस्मत्तिषे अन्यन्ते अस्मत्तवन्धुहेतयः पाभो अस्मभ्यगो शिवो भव ृषदेवडप्सुषदेवट्वनसदेवट्परिषदेवत्सुवर्विदेवडे देवादेवानाञ्ज्ञिया यज्ञियानागोसंवत्सरेणमुपभागमासते अहदादो हरिष यज्ञे अस्मिन् स्वयञ्जोधम् मुधनाघृतस्य ये देवा देवेश्वतिदेवत्वमायनये ब्रह्मणः पुर एतारोहस्य भ्यो न ते भवते नाम किञ्चनदे दिवो न पृथिव्याधिष्णुषु प्राणदाहपानदाव्यानदाश्च क्षुब्दावच्छोदावरिहोदाः अन्यन्ते अस्मत्तवन्तहेतयः पावको अस्मभ्यगो शिवो वा अग्निस्तिग्मेन शोतिषायगो सद्विश्वन्यत्रिणम् अग्निर्मागोरीम् सैनानीकेन स्मेष्टादेवागोहाय ज्येष्ठस्वस्ति अदत्त्वा गोपा उदनः परस्पाग्नेत्रिमतरेवत्यधिः य इमाविश्वाभुवनानि जुह्वदृशतानि शसादापितानः स आशिषा त्रविणमिच्छमानः परमच्छदो वर आविवेश विश्वकर्मा मनसाहित्याभिधाता परमादसन्दृग तेषामिष्टान्धमिषामयन्ति यत्र सत्तर्षीन् पर एकमाहो यो नः पिताय निताय विधाता यो नः सतोऽभ्यासत्यजान यदेवानाम्नामदा एक एव त गोसम् वृष्ट्यम् भुवनायन्दन्या सहायजन्धत्र वि न गोसमस्मासे पूर्वे जरितारो न भोना ैलमाकमन्तरम् भवादिहारेण प्रारुतादिव्याजादिवापर्या परदेवे भरसुरे गुहायत् क्गस्मृत्गन्धम् प्रथमम् दध्रा भो यत्र देवाः समगच्छन्द विश्वेभम् प्रथमम् दध्रा भो यत्र देवाः समगच्छन्द विश्वे अजस्य नाभावध्येकमर्पितन्यस्मिन्निदम् विश्वम् भवनमधिश्रितम् विश्वकर्मा यजनिष्टदेवः आदिग्गन्धर्वरभाः पिताजनिजौषधीनामवाङ्गद्धम्यदात् कृत्वा चक्षुषः पिता मनसाधिधीरोधृतमेने अजनन्मन्यमाने यदेदन्धादृमोहन्धपूर्वहादिद्या वा पृथिवी अप्रथेता विश्वतश्चक्षरुत विश्वतोमुख विश्वतोहस्तवृत विश्वतस्पात् संवादभ्यान्नवधिसम्बरत्रयेत्या वा पृथिवी जनयन् मनीषिणा मनसा पृच्छते दुरद्यवनानि धारयन् दाते धामानि परमानि यावमायामध्यमा विश्वकर्मन्नुतेम शिक्षा विषस्वधावस्वयम् युजस्वदनुमञ्जानः आजस्पदम् विश्वकर्माण मोदये मनो युजम्माजे अध्याहुवेम स नो नेतिष्ठाहवनानि दोषते विश्वशम्भोरवते साधुकर्म विश्वकर्मणः अविषामावृधानस्वङ्गजस्वधनवन्यषाणः मुह्यन्वन्ये अवितस्वपत्नादिहास्माकम् मघवा सूर्यरस्तु विश्वकर्मन हविषावर्धनयत्रा रविन्द्रमकलोरमध्यम् तस्मै विशसमनमन्तपूर्वेरयमुद्राविहव्या यथा सत् समुद्राय मयुनाय सिन्धो नाम्पतये नमः अवीनाभूधर्वासाम् वित्रेज हुता विश्वकर्मणे उदयनमुत्तरान्मयाग्ने हृदयनाहृता रामयस्पोषेण स कुंसजप्रजयादनेन च इन्द्रेवम् वृतराङ्ग्रथिसजातानामसद्वशी समे नर्त्यसा दृशदेवेभ्यो भागता सद यस्य ब्रह्मा हविर्ग्रहे समग्नेऽर्थयात्मम् तस्मै देवाभिर्लवन्नयम् स नाभवशेव तमःप्रतीवामिभावसः कञ्जो दैवीर्यज्ञमवन्तदेवीरपामदिन्दुर्मः आयस्पोषे यज्ञमतिमा भजन्ति आयस्पोषेऽधियज्ञोऽस्थात्सविद्धे यज्ञावधिमा महानः तथवद्वये ज्ञागृहेतस्वार्थम् धर्मम् परिहृष्यायजन्तो ज्ञाय यज्ञमसमन्तदेवा दैव्याय धत्रेयोश्चे देव श्री श्रीमणा शतमयः परिगृह्य देवायज्ञमायन्न सूर्यरस्मिरहरिकेशः पुरस्तात्सहिताोतिरुदयागोहस्रम् तस्य पोषाप्रसञ्जादिदेवस्तम्भ्यतविश्वाभूनानि गोवा देवादेवे द्योद्धर्यन्तास्तिर्गीतकोशवित्तेशमिताय दीः श्रीया यज्ञा यत्र हव्यमेति अंतरिक्षम् हिमान एष दिवमध्यास्तारिक्षम् स विश्वाचीरभिजिष्ट्यदाचीरन्तरापोर्णोपञ्चकेतुम् वृक्षासमुद्रा अरण सुवर्णः पूर्वस्य इन्द्रम् विश्वाविधम् समग्रव्रजसङ्गिनः सत्पतिम् पतिम् चवक्षत्यक्षदख्यदेवो देवागोमाचवक्षदस्य वा प्रसवे नोग्रामेणाधिगवेद अथा सपत्नागोविन्द्रमेरिग्रामेणागोकः ग्राभञ्जरिग्राभन्त्य ब्रह्मदेवादेव अथा सपत्नानिन्द्राख्ये मे शोचेनान्वस्यताम् वृषभो न यद्मो घना घनः क्षोघनश्च ऋषणीनाम् सङ्क्रन्दनानि विष एकवीरस्य च कोंसेनाजयत्सान्द्रः सङ्क्रन्दनेनानि विषेण जिष्णना यत्कारेण दृश्य वनेन धृष्णनात्सह धन्यानरैष हस्तेन वृष्णः सैष हस्ते स निषण्र्वशीषड्वस्रष्टा सैजन्द्रगणेन स कोंसश्च यत्सामपा सद्योन् आप्रतिहिताभिरस्ता बृहस्पते परिदीयार्थेन रक्षामित्रागो अवधमानः प्रभञ्जन् सेना प्रमृणो या जयन्नस्माकमेऽ्यपितार्थाना गोत्रभिधङ्गोभिध्रवाञ्जयन् नमस्म प्रमृणन् नमोजसांसजाता अनुवेरयध्वमिन्द्रकंसखायो न स गौरभद्रम् अरविघ्ज्ञायस्थविरप्रवीरः सह स्वानुभाजी सह अभिवीरो अभिदत्त्वासहोजाजयित्र समादिष्ठगोविद अभिहोत्राणि वीरः शरमन् नरिन्द्रः दृश्यवनप्रतास्माको सेनायुत्सु आसान् नेता बृहस्पतिर्दक्षिणानिज्ञः प्रेतुसोमः एव सेनानामभिमन्यनाञ्जयन्ीनाम् मरतो इन्द्रग्रे इन्द्रस्य कृष्णो वर्णस्य राज्ञः नित्यानाम् मरुतागुषध्रम्भवनच्छवानाम् घोषो देवानान्यस्था अस्माकमिन्द्रः समृदेशध्वजेष्वस्माकञ्जायुषमस्तादयन्तो अस्माकम् वीरावत्तरे भवन्तस्मानदेवावताहवेषो मृद्धर्षे महवन्नायुधान्युत्सत्मनाम् महामगानाम् महागुंसि पुत्रानवाजिनाम् वाजिनाम् निद्रथानाम् जयता मे दुर्भाषः उपप्रेतजयता नरः स्थिरावः सन्तु यथा सदा अवधृष्टापरापदशरव्ये ब्रह्म सघोषिता यच्छामित्रान् प्रविशमयिषाम् कण्ठनाक्षिषः कर्माणि ते कर्मभिश्चादयामि स्वामस्त्वा र्वरीया वरिवस्तेऽस्तुजयन्तमनुमदन्तु देवाः यत्र बाणाः सम्पदन्ति कुमाराभिशिखा इव इन्द्रा नस्तत्र वृत्तः विश्वाः शर्म यच्छतु प्राजीवनप्रतिसंवेहि वित्तानग्नेरग्ने पुरोहग्निर्भवेह विश्वाः शादीत्यार्जन्नादेह जपदे चतुष्पदे त्रमग्न्यानाकमुख्यमो हस्ते शुबिभ्रदः दिवः पृष्ठगोंसवर्गत्वा मिश्रा देवेऽभिरात्मम् पृथिव्या अहमुदन्तरिक्षमारोहमन्तरिक्षात् निवमारोहम् दिवो नागस्य पृष्ठात् सुवर्योतिरगामहम् स्ववर्यम् द्वानापेक्षन्तहात्यागोरोहम् यज्ञे विश्वताधारकुंसवित्त्वागुंसाविते निरे अग्ने प्रेः प्रथमादेव यताञ्जक्ष देवानामुत्या ्यक्षमाणा भृगवेः सजोषास्वर्यम् दस्ति न कोषा सा समनसा विरूपे धापयेते शिशुमेकगोसमीची क्षामा रुक्मा अन्तर्विभाति देवाग्निन्द्रविनोदा अग्ने सहस्राक्षशतमोऽध्वञ्चतन्दे प्राणाहस्रस्य रायै दिषे तस्मै देवि देमवाजाय स्वाहा ृष्टे पृथिव्या श्रीलभान्तरिक्षमापणज्योतिषादिशमुक्तमानतेजसादिश्रिगोः आयुष्मानस्तु प्रतीकपुरस्तास्वान्योनिमासेदसाध्या अस्मिं शतस्युत्तरस्मिन् विश्वे देवायजमानस्य सेदता प्रेखाग्ने शूर्ण्यायष्ट गोशश्वम् दोपयन्ति वाजाः देवरमे जन्मन्मग्ने विधेमस्तोमैरवरे सहस्रे यस्माद्याने रुदारिधाय रतम् वृत्त्वे हवीगुंशुजोमिध्ये सुमतिम् विश्वजन्याम् यामस्य कण्वावीणाको सहस्रधाराम् वयसा मीन्वा सप्तदे सप्तदिष्पा सप्तऋषयः सप्तधामप्रियाणि सप्तहात्रा सप्तधात्वा ऐरुन्दितया धीरापुरस्वाहृतेन ईदृम्जा प्रतिदृम् च इदश्च संविदश्च तपराः शुक्रज्यो दिश्च्यो दिष्टसत्यज्योतिश्च्योदिष्मा दुश्च सत्यश्च तपाश्चात्यमोहाः जित्य सत्यजित्य सैरजित्यषेणश्चाञ्चमित्रस्य दोरे अमित्रश्च गणः धनश्च सत्यश्च ध्रुवश्च धर्णश्च दत्ता च विधत्ताजविधारयः ईदृक्षास एतादृक्षास संविदासश्च न ऊतये सफरसो मरुतो यज्ञे अस्मिन् दैवे विश्वमृतोऽनुवर्त्मानोऽ मरुतोऽनुवर्त्मान एवमिवञ्जमानन्दैवेष्टमानुशेष्ट्यानुवर्त्मानो भवन्तु जीमोदस्येव भवत्युते कञ्जत् धर्मेयादिसमदामुपस्थे सत्त्वा ब्रह्मणामहिमाभिवर्तो शत्रारपकामम् कृणाति सन्मना सर्वाः प्रतिशोदेम वक्ष्यन्ति वेदागनीगन्ति कर्णम् प्रियगोसखायम् वर्षस्वजाना योषेव सिंहे विददाति सन्म्यार्यं समने पारयन्ति ते आचरन्ति समने मयोषा महादेव पुत्रम् विभृतामुपस्थे अवशत्रोन् विद्यदागुणसंविधाने आर्ति इमे विस्फुरन्ति अमित्रान् बह्वीनाम् पिता बहुलस्य पुत्रश्चाकृणोति समनावगत्याः सङ्कापृतनास्ति सर्वाः पृष्ठेन रद्धोदयति प्रसूदः रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः अभीषूणाम् न विमानम् प्रायदमनः पश्चाद्मेच्छन्ति ीभ्रान् दोषान् कुण् वृषपाणया श्वारथेभिः सह वादयन्तः अवक्रामन्तप्रपदे नमित्रान् क्षणन्ति शत्रुघोरणन्तः नो हविरस्य नामयत्राय धन्ये दवस्य वर्म तत्रारथमपशक्नगोंसदेमविश्वाः विजयकोंसु मनस्यमानाः सादृश्यो योधाः कृच्छ्रेश्वदर्शकीवन्दोगमेलाः चित्रसेना इषुपरा अमृध्वा सतो वीरा उरवोदसा ब्राह्मणा रक्षामागिर्नाखषगंधीषदा स्वर्णम् हस्ते मृगोरस्यादन्तो गोभिः सन्नद्धापदिप्रसूता यत्रा नरः सन्ध्यविच्रवन्तित्रास्मभ्यमिषवः शर्म यं सन् अजीते परिवर्घनास्मावदनस्तनो होमालिप्रवेदनादिशः शर्म यच्छतु पारङ्घम् दिशान्वेषा जघनागोमुपज्नते अश्वादिनप्रजेदतोऽश्वान्समत्सुशोदया अहिरिव भोगैः पर्येदिवाभुञ्ज्याया हेतिम् परिपादमानः हस्तग्मा विश्वा वयनानि विद्वान्बुमान्बुमागुम् सम्परिपातविश्वदः वनस्पदे वेट्रम् गोभिभूया अस्मत्सखा प्रतरणः सुवीरः गोभिः सन्नद्धोऽवेडय स्वासादादे जयदुजयत्वानिवत्पृश्यात्पर्योजोद्भृतम् वनस्पदेभ्यः पर्यावृतकोसः अपाभोच्मानम् परजोभिरावृतमिन्द्रस्य वज्रमो हविशाज्रो मरुतामनेकम् मित्रस्य यद्वावर्णस्य नाभिः स्यमान्नो हव्यतादिद्युषाणो देवरसम्प्रति हव्यागृभाय उपस्वासयपृथिवीपुदव्याम् पुरत्रादेमनुताम् विष्ठितम् जगद सदन् देवैर्दौराष्ठनेदुरिता बाधमानः अपक्वादनन्दुभेदुच्छुनागोहित इन्द्रस्य मुष्टिरसि वीडयस्व आमोरजप्रत्यावर्तये मार्के तु मध्यम्नो जयन्तो न प्रथमम् समुद्रादवात् शेनस्य वक्षाः ऋणस्य बाहोस्तु जन्म हि जातन्ते अर्वन् रमेण दत्तम् अतियमो अस्यादित्योष्ठदेन अतिसो विवृत्त आहृत्य त्रीणि देवबन्धनानि त्रीणि आहृतिविबन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे देवमेव वर्णश्चन् स्यर्पनेत्राद आहुपरमञ्जरित्रम् महादेवादिपवार्तितानिधानाः त्रादे पत्रादशना अवश्य मृतस्य या अभिरक्षन्ति गोपाः आत्मानन्दे मनसाराधजानामो दिवापदयन्तम् पदङम् शिरोऽवश्यम् पथिभिः सुगेभिरलेणभिर्जेहमानम् पदत्रि अत्रादे रोगमुत्तमोहस्यञ्जिगीषमाणविषापदे गोः भर्ता अनुभोगमानडादिव्यष्ठभोजधीरजीगः अनुद्वारथो अनुमर्यो अर्वन्मनुगावो न भगः कनीना अनुप्रातासस्तवैयर देवावभिन्ते हरण्यशृङ्गो यो अस्य पादामनोजभावन्द्रासीत् देवायरस्य विरज्यमायनयो अर्वन्तम् प्रथमो यैर्मान्ता सस्यजमध्यमा सस्यगु सूर्णासो दिव्यासो हत्याः ेवायुदम्वैष्णर्वन्तवजत्तम् वादयवध्रजीवान् सञ्ज्ञानेष्ठिता पुरुत्रारण्येषु जद्भुराणाचलन्ति प्रागाच्छसनम् वाच्यर्पादेवत्नी चामनसादीत्यानः पुराणीयगेनाभिरस्यानुपश्चात्प्रवयोयन्ति रेभाः प्रागात्परम्यत्सधस्तमर्भागो रक्षापितरम् मातरम् च अद्या देवान्दिष्टतमो हि गम्याधास्ते दादृशेवार्याणि बाणो मित्रो वरुण्यमायुरिन्द्रवृक्षामरुतः परिक्ष्यन् तद्वाजिनो देवजातस्य सत्ते प्रक्ष्यावो विदथे वीर्याणि यन्निर्ण्यजारेक्लसाप्रावृतस्य मुखतोनयन्ति सुप्रागजोऽमेम् यद्विश्वरो वहिन्द्रा गोष्णाप्रियोप्येतिपाथः एषच्छागः पुरोश्वेन वाजिना गोष्णो भागो नीयते विश्वदेव्यः अभिप्रियम् यत्पुरोडासमन्वत्मष्टे नोसाय जन्मति यद्धविश्वमृशो देवयानन्दर्मानुषात्पर्यश्वन्नयन्ति अत्राभूष्णप्रथमा भागये देव्यम् देवेभ्यः प्रतिवेदैर्णयः स्तादु विप्र तेन यज्ञेन स्वलङ्कृतेन स्विष्टेन अक्षणा अन्वेन विप्रादर्शयामदन्ति देवानाम् दुष्टे च क्रमासुबन्धुम् यद्वाजिनोदामसन्तानमर्वतो याशीर्षज्ञादर्शनार्ज्जुरस्य यद्वाघास्य प्रभृतमास्येतृणो सर्वाता ते दे अपि देवेष्वस्तु यदश्वस्य क्रविशो मक्षिकासयद्वा स्वरोऽस्वधितो रिक्तमस्ति यद्ध स्वयोश्चमितर्यन्नखेषु सर्वाता दे यदोवर्ध्यमुदरस्या भवाधियहामस्य क्रविशो गन्धो अस्ति सुकृतादच्छमिदारः कृण्वन्तो तमेधको श्रुतपाकम् पशन्तु यत्तेकात्रादकिना वक्ष्यमानादविषोरन्यः तस्यावधि मा तद्भोम्यामाश्रुषण्मातृणेषु देवेभ्यस्त ऋषभ्यो रातमस्तु ये वाजिनम् परिपश्यन्ति भगवन् हि माहुःसुरभिर्निर्हरेति ये चार्वतोमागुंसभिक्षामुपासद उतो देशामभिरोन्वतु निेक्षणम् आगुस्पजन्यामुखा याया पात्राणि योष्ण आसेचनानिक्रमणम् निषतनम् निवर्तनम् यच्च वड्विमर्वतः यच्च बभौ इत्यघासिम् न्यकासर्वाता ते अपि देवेश्वस्तु ्राजम्जग्निष्टम् वेदमभयोम् देवासत्प्रतिगृह्णन्त्यश्वम् यदश्वायवास उपसृन्त्यधिभासहिरण्स्मै सन्धानमर्वन्तम् पड्बी शम्भ्या देवेश्वायामयन्ति यत्ते सा देमह सासोकृतस्य पार्श्वे या वाकशया वा ततो श्रुतेवताहविषाद्भरेषद्वाता देवब्रह्मणा चोदयामि चिरस्रिंशद्वाजिनो देववन्धवाङ्क्रेरश्वस्य स्वधिति स्रमेति रक्षिद्ग्रागात्रावयनाकृणादपरश्व त्रा विशस्ता एकस्वष्टरश्वस्याविशस्ता द्वायन्दारा भवतस्तथत्त्व यादेकात्राणामृदथा कृणोमिता तापिण्डानाम् प्रजहोन्यग्नौ स्तनवादिश्चिपत्ते मारेण्यसि नामिकः बाहुवेरुन्द्रियसि देवागोविदेशपथिभिः सृगेभिः हरिदेवम् जापृषधीरौ तामुपास्थात्वादिरासभस्य सृगव्यन्नावाजी स्वस्मियम् भुंसत्पुत्रागो उत विश्वापुषगोरिम् नागाश्वन्नादिदक्षणादक्षत्रश्वावनदागो हरिष्मान् इति चतुर्थकाण्डे षष्ठः प्रश्नः समाप्तः